अथ द्व्यधिकद्विशततमोऽध्यायः भीष्म उवाच नरोचते विग्रहोमे। विग्रहो मे पाण्डुपुत्रैः कथञ्चन यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयं गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम यथा च मम ते रक्ष्य धृतराष्ट्र तथा तव यथा च मम राज्ञश्च तथा दुर्योधनस्य तथा कुरूणां सर्वेषामन्येषामपि पार्थिवा एवं गते विग्रहं तैर्न संधाय सन्धाय वीरैर्दीयतामर्धभूमिः तेषामपि इदं प्रपितामहानां राज्यं पितुश्चैव दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः यदि पाण्डवेया यशस्विनः कुत एव तवापीदम् कस्यचित् अधर्मेण च राज्यं त्वम् प्राप्तवान् भरतर्षभा तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् एतद्धि पुरुषं हितं सर्वजनस्य च अतोऽन्यथा चेत्क्रियते न हि तं नो भविष्यति तवाप्यकीर्तिः सकला भविष्यति न संशयः कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलं नष्टकीर्तेर्मनुष्यस्य जीवितं ह्य फलं यावत्कीर्तिर्मनुष्यस्य नप्रणश्यति प्रणश्यति कौरव जीवति गान्धारे नष्टकीर्तिस्तु नश्यति तमिमं समुपातिष्ठ धर्मं कुरुपुलोचितं अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति प्रथा दिष्ट्या पुरोचनः पापो न